शान्त समरोद्धतौ पिटपपाटना सङ्ख्यया निपात्य जरसुतौ पवन येन निष्पातितम् विमु चन्द्रपतिन्मुदा समनुविश्य भक्तिम् पदाम् दिदेशि तगत स्मृतानपि च धर्म गुप्त्यै भुवः